मार्कण्डेय पुराणम् अध्यायं हण्ड्रेड् एण्ड् तर्टीन् भलन्तनवत्सप्रीचरितवर्णनं मार्कण्डेय उवाच इति तस्या वच श्रुत्वा पुत्रस्य स पुनः प्रोवाच धर्मज्ञस्तां पत्नीं तनयं तथा यन्मया पितुरा देशात्यक्रं राज्यं न तत्पुनः ग्रहीष्यामि बृधोक्ते न किमात्माक्लिश्यदे त्वया अहं ते सम्प्रदास्यामि करं वैश्यव्रते स्थितः त्वमिच्छया वा परित्यज सदा राजपुत्रो फल नकार राज्यम धर्मेण तोदारग्रह अव्याक्रम पृथिव्याज न चा धर्मे मनो भूपास्तस्य सर्वे भूपस्त तेनेष्टो विधिवद्यज्ञसम्यक् शास्ति वसुन्धरां सयेवैको भवद्भर्ता भवद्भर्ता पृथिव्यामरीशासनः अजायद सुदस्तस्य वत्सप्रीरितिना पितादिशैदोयेन पितादिशैदो महात्मना तस्यापि भार्या सौनन्दा विदुरथ सुता भवद पदिव्रता महाभागा सा प्राप्ता तेन शौर्यतः हत्वा पुरन्तररिपुं कुजम्भं दिदिजेश्वरम् क्रौष्टुकिरुवाच भगवंस्तेन सम्प्राप्ता कुजृम्भनिधनात् कथम् ये ददाख्यानमाख्याहि प्रसन्नेनान्तरात्मना मार्कण्डेय उवाच विदुरथो नाम नृभख्यातकीर्तिरभूद्भुवि तस्य पुत्रद्वयं जातं सुनीधिसुमतिस्तथा एकथादुवनं यादो मृगयां स विदुरथः ददर्शगर्तं सुमखद्भूमेर्मुखमिवोद्गतम् तं दृष्ट्वा चिन्तयामास किमे ददिति भैरवं पातालविवरं मन्ये नैदद्भूमेश्चिरन्दनम् चिन्तयन्निधि तत्रासौ वने ब्राह्मणं सुव्रतं नाम तपस्विनमुपागतं सदम् पप्रच्छृभः किमे दधिति विस्मितः अधिगम्भीरमवनेर्दर्शितान्तर्गदोदरं ऋषिरुवाच किन्न वेत्सि महीपाल वा ज्ञेयं सर्वं नरेन्द्रेण वर्तते यन्महीतले दानव दानवसुमहावीर्यो वसत्युग्रो रसातले सजृम्भ यदि यत्पृथ्वीं कुजृम्भ प्रोच्यते ततः क्रियते तेन यत्किञ्चिद्रत्नभूतं महीतले त्रिदिवे वा नरपदे तं कथं वेत्ति भवान् सुनन्दम नाम मुशलं त्वष्ट्रा यन्निर्मिदं पुरा तज्जहारसदुष्टात्मा तेन हन्दिरणे रिपून् पादालान्तर्गतस्तेन भिनति वसुधामिमां तदोत्सुराणां सर्वेषां द्वाराणि कुरुते सुरः तेन भिन्नात्र वसुधा सुनन्दमुशलेन भोक्ष्यते वसुधामेधां तमजित्वा कथं भवान् यज्ञान्विधं सयत्युग्रो देवानामुपरोधकः आप्याययदि दैत्येयान् सबलीमुशलायुधः यद्यरि खादयस्येनं पादालान्तरगोचरम् ततः समस्तवसुधा पतिस्त्वं परमेश्वरः मुशलं तस्य बलिन सौनन्तं प्रोच्यते जनैः तथा बला बलं चैव तं वदन्ति विचक्षणाः तत्तु निर्वीर्यतां यादि संस्पृष्टं योषिता नृप तस्मिन् दिने द्वितीयेऽह्निवीर्यवत्तदुदीर्यते न स वेत्ति दुराचारप्रभावं मुशलस्य तं योषित्कराग्रसंस्पर्शे दोषं वीर्यविषातनं एवं तस्य बलं भूप दानवस्य दुरात्मनः मुशलस्य च ते प्रोक्तं यद्युक्तं तत्समाचर आसन्नमे दद्भवतः पुरस्य पृथिवीपदे कृतं तेन महारन्ध्रं निश्चिन्ध भवान् वृथा इत्युक्त्वा ते गदे तस्मिन् पुरं गत्वा महीपतिः मन्त्रयामास मन्त्रज्ञैः पुरमध्येदुमन्त्रिभिः यदा श्रुतमशेषं तत् कथयामास मन्त्रिणां मुशल प्रभाव च वीरशातन चम्रम क्रीय तो मंत्रिस्ते नूभृता तत्ववर्ति कन्या शुश्रावाद मुदावदी तथक्पया हेदुता कन्यां वयसन्विता जहारो पवनाद्दैत्यः कुजृम्भः सखीवृथा तच्छ्रुत्वा समहि पालक्रोधपर्याकुलेक्षणः पुत्रागुवाचत्वरिदं गच्छदं वनकोविधौ निर्विन्ध्यायास्तडे गर्तस्तेन गत्वा रसातलम् सहन्यदां योपहर्तामुदावत्या सुदुर्मदिः मार्कण्डेय उवाच ततस्तौ तत्सुतौ प्राप्य तं गर्तं तत्पदानुगौ युयुधादे कुजृम्भेण स्वसैन्येनाधिकोऽपि तौ तदपरिखनिस्त्रिंशक्तिशूलपरश्वधैः बाणैश्चाविरतं युद्धं तेषामासीत् सुदारुणम् तदो मायाबलवदा तेन दैत्येन तावुभौ राजपुत्रौ रणे बद्धौ निहदा शेषसैनिकौ तच्छ्रुत्वा समहीपालः प्राहेदं सर्वसैनिकान् बद्धपुत्रः परा मार्तिमुपेतो मुनिसत्तमा ह्यस्तं निहत्य दैतेयं मोचयिष्यति मे सुतां तस्याकं सम्प्रदास्यामि तामे वायतलोचनाम् इत्येवं कोशयाञ्चक्रे स राजा स्वपुरे तदा निराशः पुत्रतनया बन्धमोक्षाय वै मुने तदशुश्राववत्सप्रीर्भलन्तनसुदोहित आघोष्यमाणं बलवान् कृतास्त्रशौर्यसंयुतः स चागम्याभिवाद्यनं प्राहपार्थिवसत्तमम् विनया वनदो भूत्वा विदुर्मित्रमनुत्तमम् आज्ञापयाशु मामेव तनयौ मोचयामि ते तवैव तेजसा हत्वा तं दैत्यं तनयाञ्चते मार्कण्डेय उवाच सदं मुदा परिष्वज्यप्रियसख्युरथात्मजम् गम्यदामिति संसिध्यै वत्सेत्याह स पार्थिवः स्थाने स्थास्यति मे यद्येवं गुरुदे विधिं वत्सैतक्रियदामाशु यद्युत्साहि मनस्थव मार्कण्डेय उवाच तदः सखग्गसधनुर्बद्धगोद्धाङ्गुलित्रवाज्जगामवीरपादालं तेन गर्तेन सत्वरः तदोज्यास्वनमत्युग्रं सचक्रे पार्थिवात्मजः येन पादालमखिलमासीदापूरितान्तरं तदो ज्यास्वनमाकर्ण्य कुजृम्भो दानवेश्वरः आजगामादिकोपेन स्वसैन्यपरिवारितः तदो युद्धमपूतस्य तेन पार्थिवसूनुना ससैन्यस्य ससैन्येन बलिनो बलशालिना दिनानि त्रीणि स यदा योधितस्तेन दानवः ततः कोपपरीतात्मा मुसलायाभ्य धावद गंधर्माल्य धूपुजमा सीषति अंतपुरे महाभाग प्रजापति तदो विजात मुशल प्रभा मुदी पस्पर्श मुशलश्रेष्ठी नशिरोधरा पुनरवत्सृादि मुशल तम महासुर तवत्स वंदनव्याजास्पर्शने कशुभा तत स गुयुे मुसलेनासुरे व्यर्था मुशलपदास्ते सम्मस्ु शत्रुषु परमास्त्रे दु निर्वीर्ये सौनन्दे मुशले मुने अस्त्रैशस्त्रैश्च दैतेयः सोऽयुध्यद रणेरिणा शस्त्रास्त्रैर्नः समस्तस्य राजपुत्रस्य सोऽसुरः मुशलेन बलं तस्य तच्च तन्व्या निराकृतं ततः पराजित्य स भूपसूनुरस्त्राणि शस्त्राणि च दानवस्य चकारसद्यो विरधं ततश्च सचर्मखड्गः पुनरप्यधावत् तमापदन्तं रभसाभ्युदीर्णं विस्पष्टकोपं त्रिदशेन्द्रशत्रुम् शस्त्रेण वनुविराजपुत्र जखान कालानल सभेण सपा वकास्त्रेण हृदिक्षद भृशं त्याज देखम दशारिरात्म बभुवसभ्य महोरगा रलाशु महानथोत्सवः तदोपदत्पुष्पवृष्टिर्महीपालसुतोपरि जगुर्गन्धर्वपदयो देववाद्यानिशस्वनुः स चापि राजपुत्रस्तं हत्वा तौ नृपदे सुतौ मोचयामास तन्वङ्गी ताञ्च कन्यां मुदावतीम् तच्चापि मुसलं तस्मिन् कुजृम्भे विनिपादिते जग्राहनागाधिपतिरनन्तशेषसंज्ञ परितुष्टोऽसौ शेषः सर्वो रगेश्वरः मुदावत्या मुदाध्याद मुदाव मुद्हादनोवृत्ति तपोधन सुनंदमुसलस्पर्शपुनःपुन योषिकतलस्पर्श प्रभाव्तिशोभना मुदोनाम नागराजस्तकद सुनन्दामिदिशानन्दं सौनन्दगुणजं द्विज स चापि राजपुत्रस्तां भ्रातृभ्यां सहितां पितुः समीपमानिनायाशुप्रणिपत्याह चैवतम् आनीतौ तनयौतात तथैवेयं मुदावती तवाज्ञया मयान्यद्यत्कर्तव्यं तत्समादिश मार्कण्डेय उवाच ततः प्रहर्षसम्पूर्णहृदयः स महीपतिः साधु साध्वित्यथाहोच्चैर्वत्सवत्सेधि शोभनम् सभाजितोऽस्मि त्रिदशार्वत्साहं कारणैस्त्रिभिः त्वं जामादा यत्प्राप्तो यच्चारिर्विनिपातितः आगतान्यक्षतान्यत्र यच्चापत्यानि मे पुनः तद्गृहाणाद्य शस्तेह्निपाणिमस्यामयोदितम् त्वं राजपुत्रचार्वाङ्घ्या मुदावत्या मुदा युक्तः सत्यवाक्यं कुरुष्व राजपुत्र उवाच तादस्याज्ञामया कार्या यद्ब्रवीषि करोमि तद् त्वमेव तादजानीषे नैवात्राधिकृता वयं मार्कण्डेय उवाच ततस्तयोः स वैवाहिकं क्रमं मुदा वत्याश्च दुःखितोर्भन्दनसुतस्य वै तदस तया रे कालेन गच्छदा वृद्धः पिता तस्य भलन्तनः वनं जगाम वत्सप्री सबभोवमहीपतिः इयाजयज्ञान् सततं प्रजाधर्मेण पालयन् पुत्रवत् पाल्यमानास्तु प्रजास्तेन महात्मना ववृधोर्विषये तस्य न चाभूध्वर्णशङ्करः न दस्युव्यालदुर्वृत्तभयमासीत् च कस्यचित् नोपसर्गभयं चैव तस्मिञ्चा सदि भूपतौ इति श्रीमार्कण्डेयपुराणे भलन्दनवत्सप्रिचरितं नाम त्रयोदशाधिक शतमोध्याय ओम